हरि ओम् श्री सीतारामचन्द्राभ्यां नमः अथ श्रीमद् वाल्मीकि रामायणे युद्धकाण्डे पञ्चाधिकशततमः सर्गः अगस्त्ये नरणे विजयलाभार्थम् आदित्य हृदयस्तोत्रपाठाय श्रीरामं प्रति सम्मतिदानम् ततो युद्धः परिश्रान्तम् समरे चिन्तयासितम् रावणम् चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम् दैवतैश्च समागम्य द्रष्टुमभ्यागतोरणम् उपगम्या ब्रवीद्रामम् अगत्यो भगवान् तदा राम राम महाबाहो शृणु गुह्यम् सनातनम् येन सर्वा नरिन्वत् स्वमरे विजयिष्यसे आदित्य हृदयं पुण्यम् सर्वशत्रुविनाशनम् जया वहम् जपन्नित्यम् अक्षयम् परमम् शिवम् सर्वमङ्गलमाङ्गल्यम् सर्वपाप प्रणाशनम् चिन्ताशोक प्रशमनम् आयुर्वर्धनमुत्तमम् रश्मिमन्तं समुद्यन्तम् देवासूरनमस्कृतम् पूजयस्व विवसन्तम् भास्करम् भुवनेश्वरम् सर्वदेवात्मकोह्ये च तेजस्वी रश्मिभावनः एष देवा सुरगणाम् लोकान् पातिग भस्तिभिः एष ब्रह्मा च विष्णु च शिवस्कन्ध प्रजापतिः महेन्द्रो धनदकालो यम सोमो पापती पितरो वसव साध्या अश्विन मनु वायु वह प्रजा प्राण ऋतुर्ता प्रभाकर आदि सविता सूर्य खग पूभिमा सुवर्ण सदृशो भानु हिण्य रेता दिवाकर हरिद्व सहस्राची सप्त सप्तिमिमानिमिरोन्मथन शंभुट मातंड कौशु मन हिण्य गर्भ शिशि तपनो हस्करो रवि अग्ने गर्भोदिसे पुत्र शंख शिशिनाशन व्यवमनाथ तमो भेदी युग्यजुषा मगन वृष्टि पाम मित्र विन्ध्यभीथि प्लवङ्गमः अदपि मण्डली मृत्यु पिङ्गल सर्वतापनः कविर्विश्वो महातेजा रक्त सर्वभोवद्भव नक्षत्र गृहताराणाम् अधिपो विश्वभावनः तेजसाम् अपि तेजस्वी द्वादशात्मन् नमः पूर्वा गिरये पश्चामायाद्रये नमः ज्योतिर्गणानां पतये दीनाधिपतये नमः जयाय जय भद्राय नमो नमः नमो नमः सहस्राचो आदित्याय नमो नमः नम उग्राय वीराय सारङ्गाय नमो नमः नमः नम पन्न प्रबोधाय प्रचण्डाय नमोस्तु ते ब्रह्मेशा न च्युतेशाय सूराय दित्यवर्चसे भास्वते सर्वभक्षाय रौद्राय वपुषे नमः तमोघ्नाय हिमघ्नाय चत्रुघ्नाय मितात्मने कृतघ्नघ्नाय ग्ना देवाय ज्योतिषां पतये नमः तप्त चामिकराभाय हर्ये विश्वकर्मणे नमस्तमोऽभिनिघ्नाय रुचये लोकसाक्षिणे नाशयत्येष वै भूतम् तमेव सृजति प्रभु पायत्ये च तपत्येष वसत्येष गभस्तिभिः एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः एष चैव अग्निहोत्रम् च परं चैव अग्निःतॄणां दैवश्चैव क्रतूनां फलम्बेव च यानि कृत्यानि लोकेषु सर्वेषु परमप्रभु एनम् मापत् सुकृत्रेषु कान्तारेषु भयेषु च कीर्तयन् पुरुष कश्चिन् नावति राघवे पूजय देवदेवं जगत्पतिम् एतत् त्रिगुणितम् दत्वा युद्धेषु विजयिष्यति अस्मिन् क्षणे महाबाहु रावणम् तम् जयिष्यसि एवम् मुक्त्वा तदोगत्यो जगाम स यथागतम् एतत् श्रुत्वा महातेजा नष्टशोको भवत्तथा धारयामास सुप्रीतो घवे प्रयतात्मवान् आदित्यं शिक्षज त्वेदम् परं हर्षम् अवाप्तवान् त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान् रावणं प्रेक्ष्य हृष्टात्मा प्रेक्ष जयार्थं समुपागमयत् सर्वयत्ने न महता मृतस्तस्य वधे भवेत् निरीक्ष रामम् मुदितमना परमम् प्रविशमाणः दिश चरपति विदित्वा विधित्वा सुरगणमध्ये गतो वचस्त्वरेति इत्याख्ये श्रीमद् रामायणे वाल्मीकि अधिकारे युद्धकाण्डे पञ्चाधिकशतमसर्ग श्रीसीतारामचन्द्रार्पणमस्तु